श्रीहरये नमः अत एकादशोऽध्यायः सूत उवाच आनर्तान् स उभव्रज स्व्रद्धाञ्जनपथान् स्वकान् दद्मो धर वरं तेषां विषादं समयन्निव स उच्चकासे धवलो धरो तरोऽप्युरग्मस्याधर शोणशोणिमा धात्मा यानकरकञ्च सम्पुटे यदाब्जघण्टे या कलहं स उत्स्वनः तमुपश्रुत्य प्रद्युत्ययो प्रजासर्वा सर्वा भर्तृदर्शनलालसाः तत्रोपनीतभलयोरवे दीपमिवा धृताः आत्मा रामं पूर्णकामं निजलाभेन नित्यधा प्रीत्युत्पुल्लमुखाप्रुषोर्हर्षगद्गतया गिरा पितरं सर्वसुहृतम् अविधारमिवार्भगाः न तथा स्मते नाथसताङ्क्रिपङ्कज विरिञ्च वैरिञ्च सुरेन्द्रवन्दितं परायणं क्षेमम् इहेच्छतां परं न यत्र कालप्रभवेत् परः प्रभुः भवायनस्त्वं भवविश्वभावन त्वमेव मातातसुहृत्पतिः पिता त्वं सद्गुरुर्नः परं च दैवतं यस्यानुमृत्या कृतिनो बभूवि मा अहो सनाधा भवता स्म यद् वयं त्रैविष्टपाना अभिधूरदर्शनं प्रेमस्मितस्निग्धनिरीक्षणाननं तव सर्वसौभकम् ुजाक्ष अपसरसारभो भवान् कुरून्मधून् वात सुहृदितृक्षया तत्राब्धकोटिप्रतिमक्षणो भवेत् रविं विना अश्नोरिवनस्तवाच्युता इति चोदीरिता वाचः प्रजानां भक्तवत्सलहा शृण्वा नो दृष्ट्या विधन्वन् प्राविसत्पुरे मधुभोजदसार्हार्ह कुर्गुरान्धवृष्णिभिः आत्मतुल्यभलैर्गुप्तां नाघैर्भोगवतीमिव सर्वधुः सर्वविभव पुण्यवृक्षलधाश्रमै उद्यानवपवनारमैर्मृतपद्मागरि श्रियम् गोपुरत्वार मार्गेषु कृतकौतुकधोरणां चित्रध्वजपधा गाक्रैः अन्तः प्रतिहतातपां सम्मार्जितमहामार्गरत्याभणगश्चत्वरां सिक्तां द्वारि द्वारिगृहणां च त्यक्षतपलेक्षुभिः अलङ्कृतां पूर्णकुम्भैर्भलिभिर्धूपदीपैः निशम्य प्रेष्ठम् आयान्तं वसुधेवो महामनाः अक्रूरश्चोक्रसेनश् रामश्चाद्भुतविक्रमः प्रद्युम्नश्चारुदेष्णश्च शाम्बोजाम्बमस्तीसुतः प्रकर्ष्यवेकोश्च सितः शयनासनभो जनाः वारणेन्द्रम् पुरस्कृत्य ब्राह्मणे प्रणयागतसात्वसाखां वारमुक्त्याश्च सतसो यानैस्तदर्शनोत्सुकाः लसत्कुण्डलनिर्बाधकपोलवदनश्रियः नटनर्तकगन्धर्वास् सुतम् आगधवन्ति नः बगमांस्तत्र भन्तूनां पौराणामनुवर्तिनां यथा वित्युभसंगम्य सर्वेषामानमादते प्रह्वाभिवादनाश्लेषकरस्पर्शस्मिते क्षणैः आश्वास्य शाश्वभागेभ्यो वरैश्चाभिमतैर्विभुः स्वयं च गुरुभिर्विभ्रैः सतारैस्तविरैरपि आशीर्भिर्युज्यमानोन्यैर्बन्दिश्चाबिसत्पुरं राजमार्गं गते कृष्णे द्वारकाया कुलस्त्रियः हर्म्याणि आरुरुहोर्विप्तदीक्षणमहोत्सवाः नित्यं निरीक्षमाणानां यदभि न वितृप्यन्ति हि दृशत् श्रियो दामाङ्गमच्युतं श्रियोनिवासो यस्योरपानपात्रामुखं दृशां बाकवो लोकपालानां चारङ्गाणां पदाम्बुजं सितातपत्रव्यचनैवपस्कृत प्रसूनवर्षै अभिवर्षितः पति शङ्गवा शावनमालया बभौ गनो यथार्कोडु प्रविष्टस्तु गृहं पित्रोः परिष्वक्तस्व मातृभिः वन्दे शिरसा सप्त देवकी प्रमुखा मुदा ताः स्नेहस्नुतभयोधराः हर्षविक्वलितात्मना शिशिशुर्नेत्रजैर्जलैः अधा प्रसादा यत्र पत्नीनां सहस्राणि च षोटसा पद्मपतिं प्रोक्षगृहानुबतं विलोक्य सज्जातमनोमहोत्सवाः उत्तस्तुरारात्सहसा सना स याद साकं व्रतैर्भृढीतलोचनाननाः तम् आत्मजैर्दृष्टिभि अन्तरात्मना दुरन्तभावा परिरेभिरेपतिं निरुद्धमभ्यास्त्रवधं बुने त्रयोर्विलज्जतीनां भृगुवर्य वैक्लवाद यद्यप्यसौ बार्श्वगदोरहो गतस्तथापि नभं पदे पदे काविरमेद तत्पदाच्चलाभियश्चरीर्न जघादि कर्हि विदाय वैरं स्वसनो यथानलं मिधो वधेनो भरतो निरायुतः स एष नरलोकेस्मिन्नवतीर्णस्वमायया रेमे स्त्रीरत्नकूटस्थो भगवान् प्राकृतो यत उत्तामभावपि सुनामलवल्कुहासन् व्रीटावलोकनिकतो मदनोऽपि यासा संमुह्य चापमजहात् भ्रमतोत्तमस्ता यस्येन्द्रियं विमतिदं कुहकैर्नशेकुः तमयं मन्यते लोकोह्यसङ्घमभिसङ्गिनम् आत्मपं येन मनुजं व्यापृण्वानं यथो बुधः एतदीशनं गीशस्य प्रकृतिस्तोऽपि तद्गुणैर्न युज्यते सतात्मस्थैर्यथा बुद्धिस्तदाश्रया तं मूढास्त्रैण्यं चानुव्रतं रहः अप्रमाणविदो भर्तु ईश्वरं मतयो यथा इति श्रीमद्भगवते महापुराणे प्रथमस्कन्ते नैमीशियो भाग्यानेत्रीकृष्णद्वारका प्रवेशो नाम एकादशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुमहराजिकी जय